शिरो वा एतद्यज्ञस्य यत्प्रवर्ग्यः देवा उपसरः पुरस्तादुपसदाम्रवर्ग्यम् प्रवृणक्ते देवास्वेव यज्ञस्य शिरप्रतिदधाति यत्प्रवृणक्ते लोकाः येभ्य लोकेभ्यो यज्ञस्य शिरोवृन्धे षट्सम्पद्यन्ते षड्वा ऋतवः द्वादशकृततः प्रवृणक्त्ये द्वादशमासा संवत्सरः संवत्सरा एव यज्ञस्य शिरोवरुन्धे त्रर्विंशतिः सम्पद्यन्ते त्रर्विंशतिरर्थमासाः अर्धमासेऽभ्य एव यज्ञस्य शिरोवरुन्धे असौ खलु सकृतेव प्रवृज्यः ये शिरः अग्निष्टामे प्रवृणक्ते यावानग्निष्टमः यावानेव प्रवृञ्जा प्रजा वै पसोत्थाने यदुक्चप्रवृञ्जाय प्रजाम् पसो नस्य निर्दहे सर्वपृष्ठत्ये पृष्ठानि वा अच्युतम् चावयुन्ते पृष्ठैरवा स्वाच्युरम् चावयित्वा वरुन्धे अपश्यम् वापामीत्याह प्राणो वे गोपाः प्राणमेव प्रजासुवियादयिने अवश्यम् गोपामित्याः असौ वा आदित्यो गोपाः स हि वा प्रजागोपायिने तमेव प्रजानाः गोप्तायम् कुरुते अनिपद्यमानमित्याह न ह्येष् निपद्यते आचपराजपथिविश्चरन्तमित्याह आचख्ये चपराजपथिभिश्चरते सधेस्वोचे विशोचे शवसान प्रजा विपश्यते आवेवर्तिपुव स्वंदर आवरवर्तिभावन स्वंद अतमसुमासुमेभ्यासंतिमा कल्पयी सामग्रल्निनाज ग्रीष्मावेवास्मार्दो कल्पयति समग्ररग्निना गजेत्याह अग्नित्यैवैषो वाग्निना सङ्गच्छते स्वाहा समग्रस्तपदा गजेत्याह पूर्वमेवोदितम् उत्तरेणाभिगृणादि भर्तादिव विभासरजपथव्या इत्याह पारुषिका एवास्मार्दोकल्पयति हृदे त्वामनसे त्वेत्याह शारदा देवास्मार्धो कल्पयति विविदेवे लोत्रायच्छेत्याहोत्राभिदेवेवा लोकान् सन्दधाति विश्वासाम्भुवाम् है वदयित्याह हैमन्तिका देवास्मार्धो कल्पयति देवश्रोत्रम् देवघर्मदेवान् पाहीत्याहशिरा देवास्मार्धो कल्पयति तपोजाम् वाजमस्मे नियच्छते वायुममित्याह या वै मेध्यावाद सात तावे गर्भदेव गर्भकमतीह प्रजाई मतय आषे पिता यग्यस् पति प्रजा पति प्रजापवीनाह धिक्येत कवीनाम् सन्देवा देवेन समित्राय दक्षतकम् दौर्येनारुद्धेत्याहम् देवा नित्यम् प्रवज्ञम् शतकंसा आस्ते आयुर्दास्मत्मभ्यम् धर्मवर्चोदाधेत्याः आशिषमेवेतामाशा आस्ते पितानासि पिता न बोधयत्याह बोधयत्येवैनम् न वेतेऽवकाशा भवन्ति पत्रि येन समः अपवे पुरुषे प्राणाः नाभिर्दृशमे प्राणानेव यजमाने दधादे अथवादशाः क्षया विराड अन्नम् विराड विराजैवान्नाग्निमोऽधे यज्ञस्य शिरोः क्षिद्यत तद्देवाहोत्राभिप्रत्यदसुः ऋत्युजो वे क्षण्डे एतावे होत्राः होत्राभिरेव यज्ञस्य शिरप्रतिदधादि ऋषितमवे एक्षन्ते ऋषिदाद्वै प्रजापति प्रजा असृजा प्रजानाकम् सृष्ट्यै ऋषितमवे एक्षन्ते ऋषिदाद्वै पर्जन्या वर्षये सन्ते ऋषितमवे एक्षन्ते ऋषिता वै ब्रह्मवत्सरम् ब्रह्मवत्सुना भवन्ति अधीयन्ता वे न पद्मवे एक्षेत यः पद्मवेक्षेत प्रजायेत प्रजान्तै निर्दहेन् यन्नावेक्षेत न प्रजायेत नास्यै ये प्रजान्यर्दहेत् तिरस्कृत्य यजुर्वादेति प्रजायते नास्यै ये प्रजान्यर्दहति वृष्टिमते देशपेयेत्याह सपाक्ष्य प्रजाम् प्रजायन्ते देवस्य प्रथवैरसनामा दत्ते प्रसो वा अश्विनाः बाहुभ्यामित्याह अश्विनौ हि देवानामद्धर्यो आस्ताः ओष्णाहस्ताभ्यामित्याहयत्यै आदित्यैना स्नादेत्याहयुष्कृत्यै विलये शिलये सरस्पत्यै हेत्याह एतानि वा अस्ति देवनामानि असावेक्यसावेक्यसावेहेत्याह एतानि वा अस्य मनुष्यनामानि मनुष्यनामैरेवै नामाह् षट्सम्पद्यन्ते षड्वा ऋतवः ऋतुभिरेवे नामाह् अदित्या उष्णेणमसेत्याह यथा विजुदेवैत वायुदस्तेड इत्याह वायुदेवत्या वैवत्सः पूषात्वाभावह तौ उष्णा वै देवतया दे पशवः स्वयैवैनम् देवतया प्रदा अश्वभ्याम् प्रदाभयेत्याह अश्विनो वै देवानाम् भिरजोः ताभ्यामेवास्मैभ्यजम् करोति यस्ते श्वनश्चैत्याः स्वैनांशोऽत्र धर्मम् पारि धर्माय श्रिघुंशेत्याह यथा ब्रूयादमुष्मै देहेति दे, तादृगेव बृहस्पतिस्तोपसेदत्वित्याः ब्रह्म वै देवानाम् बृहस्पतिः ब्रह्मदेवेनाम् प्रचेदते दानवस्त्रेण वैत्याः नेभ्या नैव करोति पुष्पकृतलोहिते नेत्याह व्यावृत्ते अश्रुभ्याम् बिन्वत्स बृहस्पद्ये बिन्वस्ोष्णे बिन्वस्तु बृहस्पते इन्द्रायभिन्वस्ते इन्द्रायविन्द्रस्तेत्याह इन्द्रमेव भागधेयेन समर्थयते दिरिन्द्रायत्याह तस्मादिन्द्रदेवतानाम् भो इष्टभाक्रमः गायत्राभित्रेष्टभागतमशेषयमानाधत्ते सन्द्रेवेनाधत्ते सहोर्जभागेन ममेहीत्याह भूर्ज एवम् भागमगः अश्विनौ वा एतत् यज्ञस्विधरप्रतिदधावपूर्वाभ्याम् वषट् कुर्यादायि इन्द्रा अश्विनाधरस्य रघस्येत्याः अश्विभ्यामेव पूर्वाभ्याम् वषट्करो असो अश्विनामेवभागधेये न समर्थयते घर्मम् पादवसो भावित्याह असो नैव भागधेये न समर्थयते यद्वशः कुर्यान् यादया वादयकारः स्यात् यन्नपषत्कुर्यात् रक्षागम् यज्ञकं हन्यः पडित्याः अराक्षमेव पषट्करोति नास्य यादया वा विषट्कार भवते न यज्ञाकम् जग्धन्ते स्वाहा यस्य रश्मयैवत्याह योवाहस्य पुण्या रश्मिः तवः तस्मादेवैनम् जहोति हृदयत्येवैनम् सूर्यस्य तपस्तपेत्याहारेवेत या वा पृथिवेभ्या अहम् वा परिगृह्णामेत्याह या वा पृथिवेभ्यामेवैनम् परिगृह्णाते अन्तरिक्षेण त्वापयच्छामेत्याह अन्तरिक्षेणैवैनमुपयच्छति न वा एतम् अनुश्या भर्तुमर्हति देवानाहन्ता भर्तकुं सकेणमित्याह ेवैरेवैम् पितुरणमसादत्ते यत्पश्चात् प्रवृत्परो तेजातेजानुप्रदेहेत्याः तेजगेवास्मिन्प्रङ्गामाहिकम्प्रङ्गामाहिकम्प्रङ्गामाहिकम् यक्षदिवमापाहेत्याह आस्ते शिरो वा एतजज्ञस्य यत्र वर्गः आत्मा वायोः उद्यत्यमादनामान्याः आत्मन्नेव यज्ञशिरप्रतिषादे अनवानम् प्राणानाकुम् सन्तत्यै पञ्चाः वान्तो यज्ञः गावानेव यज्ञः अस्य शिरप्रतिदृशादे अग्न्येसुमते स्वाहेत्याः सौवादित्याहसुमान तस्मादेवेन जहोदे सोमायत्वा रुद्रपदे अस्माहेत्याह चन्द्रमावे सोमो रुद्रवान् तस्मादेवैनम् जहोदे वरुणायत्वात्यपदे अस्माहेत्याह अप्सुरे वरुणादित्यवान् तस्मादेवैनम् जहोदे बृहस्पदये विश्वदे व्यापदे अस्वाहेत्याह ब्रह्म वै देवानः बृहस्पतिः ब्रह्मण एवम् जुहोजे सवित्रे तुभुमदे विभुमदे प्रभुमदे वाजपदे स्वाहेत्याः सम्वत्सदै समान् विभुमान् प्रभुमान् वाजमान तस्माय एवम् जहोजे यमायत्ताङ्गिरस्पदे स्वाहेत्याह राणो वै हिमोङ्गिरस्वान् वितृमान् तस्मा एवम् जहोति वेदाभ्यदेवैनम् सम्पद्यन्ते क्षराक्षराविराट अन्नम् विराट विराजेवान्नाभ्यमवृन्धे रौहिणाभ्याम् मे देवास्वर्गम् लोकमायन् तद्ब्रोहिणया रोहिणत्वम् यद्ब्रोहिणो भवतः रौहिणाभ्यामेव तद्भिजमानः सुवर्गम् लोकमेति जौरागस्वाहे आदिमेविस्कार अवस्ता मुषोको रात्र आधार विश्वानेव देवान् प्रीनादि असौ दृष्ट्यायवे विश्वानादेवानयाभिधेयत्याः विश्वानेव देवान् भागधेयेन समर्धयति स्वाहाकृतस्य धर्मस्य मभावाप्युपदमश्विनेयत्याः अश्विनादेव भागधेयेन समर्धयति स्वाहायज्ञायसंजभिरित्याह अव्यम् धारयते असाभिरेवाकः अश्विना धर्मम् पादगुहादिपानवहादिवाभिरोतिभिरित्याह अश्विना वेदभागधेयेन समर्थयति अनुवान्द्याणुसादामित्याहानुमत्यै स्वाहेन्द्राय स्वाहेन्द्रावडित्याह इन्द्रायि गुरोहुयुधेः आश्राव्याः धर्मस्य यजयति बहत्कृते जहोदि रक्षसा अनुपहत्यै अणुयजलि स्वगाकृत्यै धर्मपादनश्विनेत्याह पूर्वमेवोम् उत्तरेणाभिगणादे अनुभवान् पृथिवी अवगम् सातामित्याहानुमत्यै नव दिवेन पृथिव्या इत्याह यथा विजरेवेदविधा इमम् यज्ञम् यज्ञमिमम् द्विधा इत्याह सुवर्गमेवैनम् लोकङ्गमयति दिवम् गक्षान्तरिक्षम् पञ्चप्रतिश गच्छेत्याः दिक्ष्वेव पर्जन्या भवति तस्मात् पिन्ववानः पुण्यः यत् प्रान् पिन्वदे तद्देवानाः यद्दक्षिणा तत्पितॄणाम् तन्मनुष्याणाम् यदिदङ्गे तद्द्राणाः प्राञ्च मुदञ्च दे, देवत्रागः अथ सर्वादृशः पिन्वयते सर्वाशः समे सन्ध्ये अन्तःपरिधिन्वयते तेजसो स्कन्धाय विषयपि विषयोर्जे अपि विहेत्याः विषयेवोर्जमाने यजमाना एव आस मह्यण्डेश्चायत्याः आत्मनयैवैना वाचि समासा आस तुष्येये त्वा गिन्नायत्वेन्द्रियायत्वा भूत्येत्येत्याः सार्माधर्माण्यस्मै ब्रह्माणि धारयेत्याह ब्रह्मण्येवैनम् प्रतिष्ठापयते ने, ने त्वावातस्कन्दयाजति यद्यभितरयत् मुष्यत्वा प्राणे ब्रोयाद्य स्वाहेत्याह या एव देवताः ताभ्य एवैनम् जुहोति ग्रामभ्य स्वाहेत्याः या एवान्तरिक्षे वाचः ताभ्य एवैनम् जुहोति हृदेभ्यः स्वाहेत्याः प्रजिला्य वेनंजहृथिवे स्वाहेन जो्यापे स्वाहेतर्मपा तेभ्यये वे नजहोदे मृदलाह रुद्रमे भागधेयन समर्थय से सर्वतः समनगे सर्वद एव रुद्रम् निरवदे पुरम् च निरस्यति एडावे रुद्रस्य स्वायामेव दिशरुद्रम् निरवदे अभो स्पृशे धार्य नान्विये क्षेद यदन्वेक्षेद चक्षुरस्य प्रमाविकग्नि स्यात् तस्मान्नान्वीक्ष्यः अभी परो बांधो रात्रिये बाेजा अग्न समय स्वायुर्मेदाजे आयुरेवास्वर्चो दधापी परो मात्रि अग्ने सफल भाईर्मेदावृत सामाजेतिया आयुरवास्वर्चो दधा अो निर्ज्योरग्स्वासोज्योजोस्वोल्यस्वाहे यथा ब्रह्मवादिना वृदन्ते होतव्यमग्निमहोत्रा यदिशाजुहुयात् अयथापूर्वमाहुतेजुहुयात् यन्नजुहुयात् अज्ञः परा भवेत् भूस्माहे ते महोतव्यम् यथा पूर्वमाहुते जुहोते नाग्न्यपराभवजे हृदकम् हविर्मधुहविर्याः केवीनम् इन्द्रतमेज्ञावित्याह प्राणो वा इन्द्रतमोऽग्निः प्राणेवैनमिन्द्रतमेहोदे यदा नामाहिगम् धेनत्याः हरिगुंसायै अश्रमजयदेवत्याः हरिगुंसायै तेजसा ते ते वा, ते वा ये व्यध्यन्ते ये प्रवर्गेण चलन्ति प्राष्टन्ते तेजगेवात्मन् दधरे समवत्सरन्नमां समश्नीयात् न रामामुपेयात् न मन्मयेन विभेत् नास्ति राम उच्छिष्टम् ते देवा विजयमुपयन्तः विभ्राजिसौर्ये हरन्यत सदा यत्किञ्चदिवाकीर्त्यम् गोपाय तस्मादेतभृतञ्चार्यम् एजसाय तस्मादेतानि विभ्राजः शौर्यस्येत्याहो स्वाहात्त्वा सौर्यस्य अस्मि प्रातः साधयते स्वाहा त्वा नक्षत्रेधायम् एतावा एतस्य देवताः दे किम् समर्थयते दे। धर्मयाहुदेहोदे छन्दोवा श्रेभ्यो लोकेभ्यु चमवेजते अथे लोकाः एभ्यगेव लोकेभ्यु चमवेजते अनुराद्यानुवरेत्याहानुमत्ये दिवस्त्वा परस्पर यादित्याह दिवगेवे मान् लोकान्दाधार ब्रह्मणस्त्वा परस्पा यादित्याह एष्वेव लोकेषु प्रजादाधार प्राणस्यत्वापरस्मा यावित्याह प्रजाश्रेव प्राणान्दाधार श्रो वा एतद्यज्ञस्य यत्र वर्ग्यः असौखलुवादित्यप्रवर्ग्यः अय्यदक्षिणा प्रत्यञ्चमुदम् जमुद्वासयेत् जिह्मयज्ञस्य विराहरेत् प्राञ्जमुद्वादयते पुरस्तादेव यज्ञस्य प्रतिधारे प्राञ्जमुद्बाधयते तस्मादावार्चयतिंसदनम् करोति साल्लाके भवति औदुम्बराणि भवन्ति ऊर्वा उदुम्बरः ऊर्जमेवा बृन्धे वर्त्मना वान्विद्या यज्ञकम् रक्षा किंसुसन्ति सः भवे रक्षोः रक्षदावहत्यैनपेरे त्रयिमे लोकाः लोकेभ्यो रक्षागस्य वहन्ति पुरुषः पुरुषो निधनोपे पुरुषपुरुषोभिरक्षस्ते रक्षदावहत्यै यत् पृथिव्यामुद्वादयेत् पृथिवीम् सुचार्पयेत् यदसो अपसृचार्पयेत् यदोष ओे सुार्पयेत् यद्वनस्पतिषस्पते अमृतम् वै हिरण्यम् अमृत एवमृतष्ठापयते वर्गुरसुसंज्ञा त्रिव्यञ्जन्वर्ये त्रिभृत्वा अग्निः यावानैवाग्निः तत्सजगम् शमेते त्रिःपुनः पर्ययते षट्सम्पद्यन्ते षट्वा ऋतवः ऋतुभिरेवसजगम् शमेते तस्मादेवमाह तदा विश्वावित्याः भ्रादुर्व्यावनत्ये धर्मैकत्रेण एतत्पुरेण पूरयति ओर्ग्वन्नाद्यन्दते ओर्जेवेण अन्नाग्ण समर्थयति अनशनायिको भवति एवम् वेदन्नामादिर्व्याकम् सर्व इत्याहमेवास्येतन् महिमानम् वृन्धिम् बन्धुताम् ज्याजत्य सममाविषादम् प्राणेन आशितमेवैतामाशायोस्मान् च वयम् दृष्म इत्याह अभिधारवास्येदः अचिक्रदृशाःत्याह गृहाश्लेषः इत्याहोत्येवेन सामेव योनिङ्गमयति नमस्तेऽस्तु मामाहिगुधेरित्याहारिगुम्जाये विश्वावचकम् स्वामगन्धर्वमित्याह यदेवास्य क्रियमाणस्यान्तरयन्ति तदेव शैतेनाप्यायते विश्वावचरभिरन्वाग्ना पूर्वमेवोदितम् उत्तरेणाभिगणाति रोन्वानो धेयिन् व्यादित्याहूने वास्मै कल्पयति प्राधान्धर्वा अमृतानि वदित्याः प्राणा वा अमृताः प्राणानेवास्मै कल्पयति एतत्त्वम् देव धर्म देवो देवानुपागायित्याह देवो क्लेशदम् देवानुपैति इदमहम् मनुष्यो मनुष्यानित्याह्यो हि एषदम् मनुष्यानुपैः ईश्वरो वै परवर्ग्यमद्वासयन् प्रजांसाद्वाज प्रजा स्पोषेणेत्याह प्रजामेवंसामेषमात्मन्धत्ते सुमित्राणावकोषधेः सन्वित्याह आशुरमेवैतामाशास्ते दुर्मित्रास्तस्मै भूयासुर्योः स्मान् वैक्षे च वयम् दुष्प त्यम् चित्तमिति सौरेभ्याम् पुनरेख्यकारभवत्ययम् वै लोको कारभवत्यः अस्मिन्नेव लोके प्रतितिष्ठति असौखलपाः नित्यस्तु वर्गो लोकः यत्सौरे भवतः तेनैव सुवर्गान् लोकान्न इति तदेव भवति तदकिर्यकरो तानि शुक्रियाणि सामान्यभवन् तेषां योगसात्यक्षरते तानि शुक्रिययोगिष्य भवन् शुक्रियाणाम् वा एतानि शुक्रियाणि सामयोम् वा एतयोरन्ये देवानामन्यत्पयः यद्गोपयः रत्साम् नयः यजा एपयः तद्देवानाम् पयः तस्माभ्यत्रेतेरन्ते अर्पयसा चरन्ते प्रजापतिमेव तद्देवान् पयसान्नार्थेन समर्थयन्ति एषः त्वे साक्षात्रवर्गम् भक्षयति यस्यैवम् विदुषः प्रवर्गः प्रवर्तते उत्तर्यामुद्वासये तेजस्कामस्य एष ते वा उत्तरवेले तेजः उत्तरवेद्यामुद्वासय अन्नकामस्य शिरो वा एतत् यज्ञस्य यत्र वर्गः उत्तरवेदि शेर्षैवम् यत्र करो वा एतमुद्वासिम्भयागम् शिवर्यासदे परिवेदाम् समानाम् पर्यावयागस्यासदे तस्मादुत्तरवेद्यामेव उद्वासये पुरो वा पश्चाद्वोद्वादयेत् पुरस्ताद्वा एतज्योतिरचयते तत्पश्चान्निं रोचते स्वामेवैन यो निमनोद्वासयते अपाम् मध्यमुद्वासयेत् अपाम् वा एतन्मध्याज्योतिरजायत भवति प्रवर्ग्यः स्वयेव नञ्यो नवोपदिष्टाभयते यम् दृश्यात् यत्र स्यात् तस्याम् दिश्युत्वाधुयेत् एष वाज्ञलवैश्वानरः यत्प्रवर्ग्यः अग्ने वैनम् वैश्वानरेणाभिप्रवर्तयति औदुम्बर्याम् शाखायामुद्वाधुयेत्पादुम्बरः अन्नम् प्राणः सुघर्मः इदमहममुष्यावश्यायणस्य च प्राणविरहानित्याह प्राणविरहते कार्यकाद्यमाक्षते यत्र दर्भा उद्देकसन्तः स्युः तदुतादयदृष्टिकामस्य एतावामनो नाम यद्दर्भाः असोखलित्यष्टिमुलेरेगे असदेवास्मादित्यादृष्टिर्णियच्छते ताः नायन्ते प्रजापतिसम्भ्रियमानः सम्राट्सम्भृतः धर्मः प्रवृत्तः महाय उद्वासितः अशोकलवावेदादित्यः यत्र वर्ग्यः स एतानि नामान्यकुरुता य एवम् वेद विदरेण नाम्ना नामो भजति पुण्याम् वेदस्मै कामयते पुण्यात्यमस्मै कामयन्ते य एवम् वेद तस्मादेवम् विद्वान् घर्मे दिवालेत सम्राटदिनक्तम् एते वा एतस्य प्रिये धनुवौ एते अस्य प्रियेनामणि प्रियेण धनुवा प्रिय नाम् न समर्थयति कीर्तिरसिर्मोर्वागच्छति जनतामायुधः गायत्री देवेऽभ्योपाः क्रामुदे तान् देवाः प्रवर्गे नैवानुप्यभवन् प्रवर्गे गायत्री मेन तब महासंसन्विय आस पय मोहन प्रसन्ने सः सुरायुः प्रजापतिः अशोकलुवा नित्यः क्षत्रवर्यः वितुले नाम्नादिना वदन्ते यन्मन्मयमाहुपिन्ना श्रुते कस्मादेशो वा गेभेति ब्रूयात् वाच्येव वाचन्द्रशाधि तस्मादश्रुजये प्रजापनिर्वा एष द्वादशविहितः यत्रवर्ग्यः यत्राककाशेभ्यः तेन प्रजासजत ते यतोशेभ्यः तेनान्नमसजत अन्नम् प्रजापदे प्रजापनिर्वा वैषः सविता भोमे सम्प्रज्यते तेन कामागुम् न्यति यद्वितीयेऽहङ्गवर्जनेय अग्निर्भूत्वा देवानेजि यत् तृतीयेऽहङ्वृज्जनेय वायुर्भूत्वा प्राणाने यच्चतुर्थक्षेऽहङ्वर्जने आदित्यो भूत्वा रश्मीनेदि यत्पञ्चमेऽहङ्वृद्येय संक्रमा भूत्वा नक्षत्राणे यत् षष्ठेऽहङ्वृद्यते ऋतुर्भूत्वा संवत्सरेति यत्सप्तमे अहम् प्रवर्जने राधा भूत्वा षट्परीमेति यदस्तमेहम् प्रवृचते बृहस्पतिर्भूत्वा गायत्रीमेति यन्नवमेहन् प्रवर्जेय मित्रा भूत्वा कृपमान्दा यज्ञशमेहम् प्रवृच्यते वरुणा भूत्वा विराजमेति यदेकादशेऽहन् प्रवर्जते इन्द्रभूत्वाु भवेदि यद्वादशेहम् प्रवृद्धये सोमा भूत्वा विद्यामेदि यत्परश्चाद्वशदाः प्रवर्जये तस्मादितः परागमोन् लोकागस्तपण्यते त्रिपरिष्टाद्वशदाम् प्रवृचये तस्मादमुतोमान् लोकागस्थ व्यति एवम् वेद अयि मदपति Om Shanti, Shanti, Shanti, Om